एण्डावद् दशकम् उषापरिणयम् प्रत्युम्नो रोक्मिणेय सकलु तव कला सम्बरेणाकृतस्थम् हत्वा रत्यासहातो निजपुरमकरद् च दन्याम् तत्पुत्रोतानिरुद्धो गुणनिति अवहद् रोचनाम् रुक्मिपौत्री तत्रोत्माके गतस्त्वम् न्यवति मुसलिना रुक्म्यपी द्यूतवैरा बाणस्य साभलिसुतस्य सगस्रबाहो माकेश्वरस्य महिता दुःखिता किलोषा त्वत्पौत्र मेन मनुदमदू स्व भूय कुचला भगवन्राबू योगिवला चिखा ती विलिखती तरुणा नैषा तेदमुषया विदाया आनेष्ट योगबलतो भवतो निकेतात् कन्यापुरे दयितया सुखमारमन्तम् सैनम् कदञ्चन भवन्तु क्षी सर्वबन्धो श्रीनारदोक्त तदुदन्तधुरन्तरोक्षे त्वम् तस्य शोणितपुरम् यदुभिर्न्यरुन्दा पुरीपाल शैलप्रियदुहितृनातोस्य भगवान् समम्भूत व्रातैर्यदुबलमसङ्गम् निरुधे महाप्राणो बाणो जटिति युयुदानेन युयुधे गुहप्रद्युम्नेन त्वमभिपुरहन्त्रा जकटिशे निरुदासे शात्रे मुमुखुषित्तवास्त्रेण गिरिचे धृदा भूता प्रमतिता परास्कन्ध स्कन्धकुसुमचरबाणैश्च स स गुम्बाण्डो बाण्डम् नवमिव फलेनाशु बिबिते चापानाम् पञ्चसद्या चापानाम् पञ्चसद्य प्रसवमुपगते चिन्नचापेत बाणे व्यर्थे यादे ज्वरपति अचने अज्वरी द्वज्वरेण ज्ञाने सुद्वाददत्त्वा तव विज्वरं विज्वरम् सज्वरोगा प्रायोन्तर्ज्ञानवन्तोऽपि च बहुतमस रौद्रचेष्टा कि रौद्रा बाणम् नानायुदोऽग्रम् पुनरविपतितम् दर्बदोषात् वितन्वन् निर्लूना चेश दोषम् सबति बुबुदुषा शङ्करेणोपगीत तत्त्वाचाचिष्टबाको द्वितयमुभयतो निर्भयम् तत् प्रियम् तम् मुक्त्वा तद् दत्तमानो निजपुरमगम सा निरुद्धः सघोष मुहोस्तावच्चक्रम् वरुणमजयो नन्दहरणे यमम् बालानीतो दवदहनपाने निलसकम् समरे विभो विश्वोत्कर्षे तदयमवतारो जयति ते द्विजरुषाग्रकलासवपुर्दरा नृगनृपम् त्रिदिवालयमापयन् निजजने जने उपदिशन् पवनेश्वर पाहि माम् भज गोविन्दम् भज गोविन्दम् गोविन्दम् भज मूतमते